श्वस्य ओ... गोपा देवा देवेषु यज्ञियाः से भूतदक्षसा नि्रातनानरक्षामरो नोजश्च सुक्रतो सनात्सु जातातनजा धृतव्राता विश्ववेदशा सूर्याः जमाहसा महीजजानादिजर्वृतावरी जा महान्ताः मित्रावरूना सम्राजाः देवावसूरा वृथानावृतमाघोषतो बृहद् न वा दासवासो महःसूनो दक्षस्य सुक्रतो स्वधीक्षितः सञ्जादानो निये मर्दिव्याः पार्थिवीरृषाः नभस्वतीरावाञ्चरन्तु भ्रष्टयाः अधियामृहतो दिवोभियुधे पश्यतः दानासम्रा नमसेहिता नानिषेदुःसाम्राज्याय सुक्रतो दुरव्रता क्षत्रिया क्षत्रमासतुः अक्षश्चिद्गादुवित्तरानुर्गणेन चक्षसा निचिन्विषन्तानि चिराणि चिक्यतुः उतमो देव्यरीतिरुदृश्यताम्ना सत्या पुरुष्यम् तु मरुतो वृद्धस वसः तेनो नापमूरश्यदधिपानकम् सुदानवः अदृश्यन्तो निपायुभिः स चे महि अग्नाते विष्णा वे भजमरिष्यन्तः सुदानवे सिन्धो पूर्वचित्तये तद्वार्यम् गृणीमहे वरिष्ठम् गोपयत्यम् मेत्रो यत्पान्तिवर्यमा मुदनः सिन्धुरपानम् मरुदस्तदश्विना इन्द्रो विष्णुर्मेद्वांसः सजोषसः हे हिष्मा वनुषो नरोभिमाजस्य चित् विघ्नम् अक्षोदः प्रतिघ्नम् त्रिपूर्णा यः अयमेक इच्छा पुरूकष्टेऽपि विश्वपतिः तस्य व्रतान्यो वश्च रामसि अनुपूर्वायोग्यासाम्राज्यस्य षष्ठिमा मित्रस्य व्रता वरुणस्य दीर्घसृद् पर्यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः उभे आपप्रदसीमहित्वा उदुष्यसरण्यजिवो ज्योतिरजं ससूर्याः आज्ञः शुक्रः स्वामिधान आहूतः वचो दीर्घप्रासध्वनिशे वाजस्य गोमातः ईशे हि वित्तो विषस्य धावने तत्सूर्यम् रोदसी उभे दोषावस्तो रूपब्रुवे भोजेष्वस्मा अभ्युच्च रासदाद्रमुक्षण्यायने हरजाने हर जाने तामे युक्तमस नाम सुषामानि ना। हरीणाम् त्याना सदावित्रा नष्टयामी महो वाजिनावर्वम् तासचासनम् युगो जुषोरसम् भुवे सधस्तुच्चायसूषु मधूर्तदक्षा वृषणा वृषण्वसु युवम् वा गोजुषाम् मे महेतनेना सत्या अवोभिर्जाथो वृषणा वृषण्वसु ता वा मद्यः वामहे हव्येभिर्वाजिनीयसु पूर्वीरिषयिषयम् दावधिक्षपः आ वाम् वाहिष्ठो अस्विनारथो जातु श्रुतो नारा Ii, arman, Christ, ो माम् तुलस्य दर्शनश्रियेदश्विनामृढन्वधौ युवम् विरुद्रापर्षचो अधिद्विषाः विश्रामानृढम् वक्षोभिः परिदीयसः जिन्वा वधूवर्णा सुभस्पती नो जातमश्विना राजाभिश्वपुषा घवा ना सुीरावनाच्युता आमे अस्य प्रजीव्या अमिन्द्रादत्यागनम् देवा देवे धीरद्य सजनस्तमा वयम् हि वां भवामहवक्षण्यन्दो व्यश्ववद् सुमतिभिरुप विप्राभिगमनम् अश्रिनाश्रेशेस्तु श्रवदोहवम् नेदीयसः कूलजातः पणीता वैयश्वस्य श्रुतम् न भवतो मे अस्य वेदसः स योजसावरुणो मित्रो अर्यवा युगा दत्तस्य धृष्ण्या युवाणी तस्य सूरिभिः अहरऋयम् शिक्षतम् यो वाम् यज्ञेभिरावृतोऽधीवस्त्रा वधूरीव सपर्यन्ता सुभे चक्राते अश्विना यो वामुरव्यतस्तमम् चिकेततिर्वाह्यम् वर्तिरस्मिना वा पर्यातमस्मयू अस्माभ्यम् सुवृषन् वसूयातम् वर्तिर्वायम् ऋदृहेव यज्ञमोहसुर्गिरा वाहिष्ठो वाम् भवानाम् सोमो दूतोः वन्नरा युगाभ्याम्भूतश्विना दिवो अन्नवयशो वामदथो गृहे सुतमिन्मे अमर्त्या तस्याेतया वालीवाहिष्ठावाम् दीनाम् सिन्धुर्हिरण्वर्तनिः स्मृतेतया सुगीत्या श्वेना श्वेतया धिया नो वायोजो मधु विवास्माकम् सवनागहि तव वायवृतस्पते त्वष्टुर्जामातरद्भुता अपां स्यावृणीमहे त्वष्टुर्जामातरम् भयमीशानम् राजयीमहे सुतावन्तो वायुम् जुम्ना जनासह यो या हि शिवा दिवो बहस्वासु स्वस्य वहस्वमहःपृथुपक्षसारथे हि सुप्सरस्तमम् निषदनेषु भूमहे ग्रावाढम् दाश्वपृष्ठम् मम्ना स त्वम् नो देवमनसामायोन्दानोऽः ऋपोधियाः ग्निरुक्ते पुरोहितोऽ्यावानाभीरध्वरे विजायामि मरुतो ब्रह्म वनस्पतिम् देवाङ्गोभरेण्यम् आशृङ्गाशिपृथिवीम् वनस्पतीषधीः विश्वेतनोवसो विश्ववेदसो धीनाम् भूतप्रामिकाराः रो देवेषु पूर्यः आदित्येषु प्रवरुणे धृतव्रते मरुत्सु विश्वभानुषु विश्वेष्वामुनवे विश्ववेदसो भुवन् वृहे अनिष्टेभिः वायुभिर्विश्ववेदसोऽयन्तामो मृगम् सदिः आ नो अद्य समानसो गन्ता विश्वे सजोषधः विचामिरामरुतो दे सदा नेपस्त्ये महितो यावो अस्यामित्रप्रजा आ बर्हिरिन्द्रो वरूनस्तुरानरात्यासः सदन्तु महम्बो वृत्तबर्हिषोहितप्रायसानुषग सुदासो सुतसो मासो वरुण हवामहे मनुष्वग्न प्रजातमुतो विष्णो अश्विभूषन्मागीनजाधिया इन्द्राया तु प्रतमः विनो देवासो अध्रुवो छिद्रम् धर्म यच्छत अनददूराद्वासभो नु चिरन्ति तोवरूथमदर्शति अस्ति वः सात्यम् ऋषादसो देवासो अस्त्याप्यम् प्रडापूर्वस्मै सुमक्षूनव्यासे इलाहि वकुपस्तुतिमिला वामस्य भक्तजे उपारो विश्ववेदसो न पस्युराङ्गदिष्यवत्सविधाप्रणीतयोस्था दूर्धोण्यः निर्विवादश्च दुष्पादो अर्थिनो विश्रणयिष्टवाः देवम् देवम् भोवासे देवम् देवमभिष्टाये ेवम् देवम् भूपे मवाच सातये गृणन्तो देव्या या देवासो युष्मामन वेदमन्यभो विश्वे साकम् सरातलः येनो आद्यतेन परन्तु चेतुमा भवन्तु वरि गोविदाः परस्वंसाम्यदृगस्थां सीमाम् रुणमित्रमद्यम् यो गो धामभ्यो वीदत् प्रचक्षयिरेव महीषो यो गोपरायदासति प्रजाभिर्जायते धर्मस्पर्यरिष्टः सर्वजेधतेषविन्दते युधः सुखेभिर्याच ध्वनः र्यमामित्रो वरुणः स रादयोऽयम् प्रायम् ते सजोषसः अद्यस्मेधान्यञ्जनम् दुर्गे द्यासुदरणम् येषाचीरस्मादरणिनि परोऽनुदा श्रेधम् दीवि नश्यतु यदूर्यबुध्यति प्रियक्षत्रा यद्वाभिृतम् विश्ववेदसमुपस्थेन मम ध्या रजसो रभुधि चै मध्यम् दीन आतु मन्थमनवे विश्ववेदसो जप्रते प्रचेदसे वयम् तद्वः सम् राजाव्रीडीमहे पुत्रो न बाहुवायम् अस्यामदरादित्या जिह्वातो हविर्ये नमस्यो न सामै ये त्रिंशतित्रयः स्वरो देवासो बहिरासदन् गुरु नो मित्रो अर्यमास्मद्रादिशाचो अग्नयाः पत्नी एवं दो वशकृताः तेनो गोपाच्यास्तौ रक्त पुरस्तात् सर्वजा दिशासम् िरामीनति अरावाचनवत्याः सप्तानाम् सप्तरिष्टयः सप्तद्युम्नान्येषाम् सप्तोऽधि श्रियोऽधिरे मद्रुरे गोरो युवाजयङ्ग्यम् मेक आससा दद्योतर्देवेषु मे धीरः बिभर्ति हस्त आयसीमन्तर्देवेषु ध्रुविः वज्रमेको बिभर्ति हस्ताम्बेन वृत्राणि जिह्नते जिम एको बिभर्तिहस्त आयूथम् श्रीरुद्रो जलाषभेष ीपायतस्करो यथा एष वेदनिहीना त्रीण्येकपुरुगाजो विचक्रमे यत्र देवासो वदन्ति बिभृद्वाच रतरेकजासहप्राभासेव वा वसतः सतो द्वाचक्राते उपमादिभासर्मिरासुति न्वथे नोचय नैव अस्त्यर्भगो देवासो न विश्वे सतो महान्तस्तत्रयश्च त्रिंशश्च मनोर्देवायज्ञासः ेन स्राद्ध नो अधीवोचत मानःपथः विद्यान् मानवादधि दूरम् यैक्वताः ये देवाद इह स्थन विश्वे वैश्वानरा अस्मभ्यम् धर्म सप्रथोगवेश्वा यच्छत यो यजादियजादयित्सु नवच्छपदादि च ्रह्मे जिङ्गस्य जागरणे पुरो अस्मै सोम्ररथ आशिरम् आदितम् सक्रो अम्भ सः तस्य द्युमा सद्रो देवदूतस्य सुवत् विश्वा वन्वन्न मित्र्या अस्य प्रजावति गृहे षष्ठम् धेनुमदीयुहे या दम्पतीसमनसा सुता च धावतः देवाः सो नित्यजासिराः प्रतिप्रासव्याङ्गितः संयम् चाः बर्हिराः सा ते न तावादेषु वायनः न देवानामपिन्मुदः सुजोगुक्षतः ृहद्विवासतः पुत्रिनाताकूमालिनाविश्वरन्यशसा वीतिगोत्रा कृत्वाजकम् समुदोरोमसम्भागो देवेषु कृणतो दुवाह आसम् अपर्वतानामृणीमहे नदीनाम् आविष्णो स चाभुवाः अयि गोधारयर्भगस्वस्ति सर्वधा कामः विश्वो देवस्य मनसा आदित्यानामनेहयित्त्रोपर्यवावरुणः दे। सनन्ति गोपाः सुगारदस्य बन्धाः अग्निम् वः पूर्व्यम् गिरा देवमी देवसूरायन्तः पुरप्रियम् मित्रम् न क्षेत्रसाधसम् मक्षूदेव वा तोरसूरो वा मृत्सुकासुचित् देवानाम् जयन्मनो यजमान यक्षत्यभितयज्वनोऽभुवत् न यजमानरिष्यसि न सुन् यो देवानाम् मिलिन्मनो यजामानयक्षत्यभीतयज्वनोऽभुवत् न कष्टम् कर्मणा न सन्न प्रयोष न योषधी देवानाम् विलिन्मनो यजामानयक्षत्यभीतयज्वनोऽभुवत् अस तत्र सुवीर्यमुदत्य दास्वस्य देवानाम् यजिन्मनो यजमानयजत्यभिगज्वनो भुवत् भाद्रह्नाः ओ हरिः ओताङ्गृजी नष्टण्न्द्रस्य गाधरा मदे सोमस्य बोधदा श्रिम् दवनर्शनिम् पितृम् दासमहीशुवम् नवः ज्ञूरस्य विष्णवम् वर्ष्माणम् बृहदस्तीरा कृषेतलिम् द्रपंशियम् प्रधि श्रुताय वो धृषत्तूर्णा सन्न गिरे रवेशु श्रीप्रमोदये सगोरस्वस्य विव्रजम् मन् दारः सोम्येभ्याः पुरम् न शूरदर्शसि यदि मे नारणः सुतमुक्ते वाददसे जनाः आरादुपस्वदागाहि भयङ्गा के अपि उत नः पितुवा भरसं अवीक्षितम् मघवन्भुवि देवसु उद नो गोपस्कृतिहिरण्यवतो अश्विनाः इलाःभिः संरभेमहि भवामहे भे सुप्रकारस्रमोदये साधु कृण्वन्तमभासे यस्तां स्तेच्छक्रदुरादीम् कृणोतीवृत्राभ्यः पुरोवसुः सरः शक्रश्लासगद्दानवान्तराभरः इन्द्रो विश्वाभिरुधिभिः यो राजो ओपनिर्महांसु बारसु वदः सखाः आजन्ता ब्रह्म हि स्थिरम् मृता नाशुश्रवोचितम् भूरे नमोजसा न गीरस्य सचीनाम् नियन्तासूनृतानाम् न गिर्भक्ता न दाजति न नूनम् ब्रह्मणाः मृणम् राः सूरामस्ति सुन्दता ोमोऽप्रतापवे पन्ययिदुपगाय तपन्यथानि संसत ब्रह्मा कृणोतपन्यद् पण्यादर्जिरच्छता सहस्रापाद्यवृतः इन्द्रो यो यज्वानो वृदः ऋषुचारस्वधा अनुकृष्टीनामम् बाहुवाः इन्द्रपिब सुधानाम् अति इषस्वधे नवानामुदयस्तु ग्रेसचाः उतायस्तव अतिमन्युषा समुपारणे इमम् रातम् सुतम् पेभ इस्रप रावत इन्द्रामचाकत् सूर्योः रश्मिम् यथा सृजात्वा गच्छन्तु मे गिराः निन्द्रमापो न सध्यक् मद्भर्यवालुहिषिञ्च सोमम् वीराजशिप्रिणे भराः सुतस्य पीतजे यजबुद्रह्कम् विनन्याप्सिन्धूङ्ग्रवासृजत् योगोऽषु पक्वम् धारयत् ्रमिषमौर्णवाभवहीशुभम् हिनाविद्यदर्भूलम् प्रवमुग्राजनिष्ठुरेषा नायप्रसक्षिणे देवत्रम् जो गायत यो विश्वान्य सः इन्द्रो देवेषु चेतति त्यासवाज्याहरीरन्यकेश्या बोधामभिप्रयोहितम् सर्वाञ्चन्त्वापुरुष्टुतप्रियमेधस्तुता हरीः सोमपेयायवक्षतः वयम् घटत्वा सुतामन्ताबोनरक्तबलिहिषः पवित्रस्य प्रस्रवणेषु वृत्रहाङ्गलिस्तोतार आसते स्वरम् लिप्त्वा सुतेन लोपसो निरेकमुखिनाः कदा सुतन्त्रेषानो गागमयिन्द्रस्वब्दीवंसगः कण्वेभिर्दृष्टवा धृषद्वागम् धर्षिसहस्रिणम् विषयङ्गम् अघवन्विकर्षणे भक्षू गोमन्दमीमहे आयुगायान्धसोमैन्द्रायमेऽध्यादिथे यत्संविश्वर्यो यः सुते सजाः वज्रीरथो हिरण्ययाः यत्सुष्यः सुदक्षिणयोगृहे करः सहस्राजस्व नामघैन्द्रोयः पूर्जारितः यो धृषितो यो वृतो यो अस्ति श्मश्रूषु श्रितः विभूतजम् नश्च नः पुरुष्टुतः अयम् यः पुरो विधिरत्योजसामम् दानस्य क्रियन्धसः दानामृगो न वाहरणः पूरुत्वा तरथम् दधे न निविश्वानियमता सुते कामो महांश्च रस्योजसा य मुघ्रः सन्न्यनिष्ठितस्तिरो रणाय संस्कृतः ोतुर्मघवाशुनबद्धवन्द्रोजोषत्यागमत् सत्यमिथा वृषेदसि वृषजोजर्नो वृतः वृषाह्युग्रजृण्षेव रावतिवृषो अर्वापतिः वृषारथो मघभम् वृषाणा हरी वृषा त्वम् स चक्रतो वृषासोदा सुनोतु ते वृषम् लिजि वृन्दाभरा वृषा दधन्ते वृषाणम् नलीश्वा तुभ्यम् सादर् हरीनाम् ये द्रयायि शीतले मधुरक्ष सोम्यम् भगवा शृणीरो ब्रह्मोक्रतोेष्टा माहराजो रथविडाः किरश्चीदर्यम् समानानि वृत्रहन्नन्येषाम् यासदक्रतो अस्माकमध्याम् दामं स्तोमम् धिष्वमहामः अस्माकम् ते सपनासम् तु सन्तः यद्युक्षसोममाः नैषस्तवनो मम शास्त्रे अन्यश्चरण्यति च अस्मानयत् इन्द्रश्चिद्धातुलवृती स्त्रियः शास्यम् मनाः उतो अलकृतम् रघुम् सत्येनावहतो रथम् एवेद्धोरु अधप्पस्य स्वमोपरि सन्तराम् पादकौ हा मां श्रीः ब्रह्मा बभूवीथ येन्द्रजायि हरिभिरुपगम्बस्य सुम् दिवो अमुष्यसा स दोतिवम् जयति वावसो आत्वाग्रामापतम् यः सोमी घोषेण यच्छतु दिवो अमुष्यसा स दोतिवम् जयति वावसो अत्राभिनेमिरे शामु राम् न धू नु ते कृताः दिवो अमुष्यसा स आत्वा कण्डाः जिहाप सेहवम् देवाजसातये जिवो अमुष्यसा स दो दिवम् जयति भावसो दहायुते सुतानाम् कृष्णेन पूर्वपायम् जिवो अमुष्यसा स दो दिवम् जयति भावसो त्पूरम् धर्मागाहि विश्वतो धीर्णभूतये दिवो अमुक्षशा स दो दिवम् जयजी भावसो आ नो याहि महेमते सहस्रोते सदामघ दिवो अमुष्यशा स दो दिवम् जयजी वावसो आ त्वा होत्रा दिवो अमुष्यसा स दो दिवम् ययदी वावसो आत्मा मदच्छुताहनी शेमम् वक्षेव वक्षतः दिवो अमुष्यसा स दो दिवम् जयदी वावसो आजाह्यजापरि वा स्वाहारोमस्य पीतये दिवो अमुष्यसा स दोदिवम् ययति ुपसृत्युक्तेरुरणश्यशासतो दिवम् जयति वावसो स्वसौ पैरासुरोगहि संहृतैः संहृता स्वः दिवो अवश्यशासतो दिवम् जयति वावसो आया हि पर्वतेभ्यः समुद्रस्याधिविष्टपाः दिवो अमुष्यसा स दोदिवम् जयति वावसो आन्य सहस्राशूरद्रिः दिवो अमुष्यसा स दोदिवम् जयति वावसो आनः सहस्रशोभराजुतारिषदानी च जिवो अमुष्यसा स दोदिवम् जयति वावसो यदिन्द्रश्च दद्वाहे सहस्रम् वसूरोदिषः ओजिष्ठमस्य पशुम् यरिद्रावातरम्भसो दुषासो रघुष्यताः राजम् ते सूर्या इव आरावतस्य रातिषु द्रवच्चक्रे श्वासिषु अग्निनेन्द्रेण विष्णूनाधित्यैरुद्रैर्वसूभिश्व चाभुवा स जोडसा गुणसा सूर्येण च सोमम् पिबदमश्विना विश्वाभिर्देभिर्भुवनेन वाजिनादिवापृथिव्याय चाभुवा स जोडसा गुडसा सूर्येण च सोमम् पिबतमस्विना विश्वैस्तेवैस्त्रिभिरेकादशिलाद्भ्यर्मरुद्भ्यर्भृगोभिः सुवा स चोटसा बुटसा सूर्येण च सोमम् विवतमश्विना विषेधाञ्जम् बोधतम् अवस्य मे विश्वेहजेभौ समनावगच्छतम् स चोटसा बुटसा सूर्येण जेषम् नो गोढमस्विहा सोम् जुषेधाञ्जुभेव कन्यराम् विश्वे हदे भौसवनावगच्छतम् स चोरसा बुजसा सूर्ये न शेषम् नो गोढवश्वि गिरो जुषेधा मध्वरम् जुषेधाम् विश्वेहदे भौसमनावगच्छतम् चोरसा भुजधा सूर्येण चेषोढमश्विना हारिद्र्यमेव पतथो वनेतु भोमम् सुतम्बिषे वाव गच्छतः चोष सा भुषधा सूर्येण चत्रिर्भक्तिर्जातमश्विना हंसा वीव पतथो अध्वगावीभोमम् सुगम्ब हिषे वाव गच्छतः स जोडदा वृषसा सूर्येण चतुर्भक्तिर्यातमस्विना सेनावीवपदसो हव्यधातये सोमम् सुगम् महिवावगच्छतः सजोणदा वृषसा सूर्येण चतुर्भक्तिर्यातमशस्विना विवादम् च दृप्नुतम् चा च गच्छतम् प्रजाम् च धत्तम् द्रवीनम् च धत्तम् सजोष सा भुषसा सूर्ये नजोजम् नो धत्तमश्विना जन्धप्रस्तूतम् च प्रजापतम् प्रजाम् च धत्तम् द्रवीलम् च धत्तम् सजोष सा भुषसा सूर्ये निजोजम् नो धत्तमश्विना हद्रोञ्ज गन्धमित्रिणः प्रजाम् च धत्तम् द्रवीणम् च धत्तम् सजोष सा वुषसा सूर्ये नरोर्जन्नो धत्तमस्विना निद्रावरूणवन्ता उत धर्मावन्ता मरुत्वम् ताजऋतुर्गच्छतो हवम् सजोष सा विषसा सूर्ये न राजनिना अङ्गेरस्वन्दामुदविष्णुवन्तामरुत्वम् ताजलर्गच्छतोहवम् अजोषदा वृषसासूर्ये नरादित्यैर्यादमश्र्या रघुवन्ताजवन्तामरुत्वम् ताजलतुर्गच्छतोहवम् अजोषदा वृषसासूर्ये नरादित्यैर्यादमश्रिया ब्रह्म जिन्मतमुद जिन्मतम् धियोम् रक्षाहम् धिषेधतमीवाः सजोषसा वृषसा सूर्येण च सोमम् सोऽन्वतो अश्विना क्षत्रम् जिन्वतमुद जन्मतम् रेहतम् रक्षाहम् तिषेधतमीवाः ोषसा वुषसा सूर्येण च सोमम् स्वम्बतो अश्विना धेनोर्जिम्बतमुत जिम्बतम् विशो हतम् रक्षान् शेधतमीवाह षोषसा गुषसा सूर्येण च सोमम् स्वम्बतो अश्विना ूर्यवा स्वस्य सुन्भतो मध्युता स चोटसा वृषसा सूर्ये नराश्रिनाचिरोअम् स्वर्गाङ्गी रूपस्य सुन्भो मध्युता स चोटसा वृषसा सूर्ये नराश्रीनाचिरोऽन्यम् रश्मीन्द्रिपयच्छतमध्वरा नृपस्यावा स्वस्य सुन्वतो मदच्युता स चोष सा पुषसा सूर्ये न चास्विनातिरोऽन्ध्यम् अनपाग्रथम् नियच्छतम् पिबातम् सौम्यम् नमो भागे प्रस्थीते अध्वरेण राभक्षणस्य पीतये आयाः तमश्विनागतमवस्युर्वामहम् भूपे दत्तम् रत्नायिताशुषे स्वाहा कृतस्य निर्मतम् सुतस्य देवावन्त सः यादमशिरागतमस्युर्वामहम् भूमे धत्तम् रत्नाहिलासुषे अवितासीसून्मरो वृक्षपरिह्य वासो मम्मदाजकम् साधक्रतो यन्दे भागवधारजन्विश्वास्य हानः प्रदाना रुद्रजः समप्सुचिन्मरुत्वािन्द्रसत्पदे रावस्तोदारम् गभन्नभत्वाम् विभासो मम् मदायकम् साधक्रतो ये भागमधारजन् विश्वास्ये हानप्रदानागुरुद्रजः समप्सुचिन्मरुत्वािन्द्रसत्त्वते ऊद्रादेवाङ्गवस्योजसा त्वाम् विभासो मम् मदायकम् स चक्रतो जन्म भागमधारयम् विश्वासे धानः प्रतना गुरुद्रयः समत्सुजिन् मरुत्वा जनिता पृथिव्यापि वासो मम् मुदायकम् सक्रतो इन्द्रे भागमधारजन् विश्वास् न प्रदाना गुरुद्रजः समत्सुरिम् मरुत्वा जनिता स्वाहा जनिता गवाम श्रीवासो रजन् विश्वाह सेवानप्लुताना गुरुद्वयसमप्श्रुचिम्बरुत्वाम् सोमाम्यो महस्त्रिविवासो मम् मुदायकम् स चक्रतो े भागमधारजन् विश्वास्ये हानप्रदाना मुरुद्रजः समत्सु मरुत्वा स्वस्य सन्वतस्तथा शृणु यथा शृणो रथे कर्माणि गण्वतः रचरस्य मावितात्वमे कयन् ृषा जयिन्द्रब्रह्माणि वर्धयन् ेन मृमा रेष्वापि धृं वरस्य जीव दलिन्द्रविश्वाभिरुचिभिः माध्यम् दिनस्य सपनस्य व्रत्रहन्न वेद्यपि वासोमस्य वज्रिवः सेहानग्रकृताना हिदृढस्य जीव दलिन्द्रविश्वाभिरुचिभिः माध्वम् विरस्य सवनस्य वरतः नवेद्यपि भासो वस्वज्रिवः एकरा भुवनस्य राजसि सती पतन्द्रविश्वाभिरुचिभिः माध्यम् विरस्य सवनस्य वरतः नवेद्यपि भासो वस्वज्रिवः जसि त्वमेकयिच्छजीपदैन्द्रविश्वाभिरुतिभिः माध्यम् दिनस्य समानस्य वृत्रह नेद्यपि वाशोपश्रवज्रिवः क्षेमस्य च प्रयुज त्वमीशिशेषजीपदैन्द्रविश्वाभिरुतिभिः वत्रहन्वने जि भासो वस्त्र वज्रिवः क्षत्राय त्वमधिरत्वा माविध सजीपतलिञ्जलिश्वाभिरूतिभिः माध्यम् दिनश्च जवानस्य वत्रहन्वने जि वासो वस्स्रवज्रिवः स्वस्यरे भतस्तथात्वमेकयन्त्राणि वर्धयन् यशिस्तीवाजेषु कर्मासु इन्द्राज्ञस्य बोधतम् रसयावानाग्रहापराजिता इन्द्राग्नीतस्य बोधतम् इदम् वाम् वजिरम् मध्वदुः मध्वेभिर्नराः इन्द्राग्नीतस्य बोधतम् जुषेधाञ्जमिष्टजे सुतम् सोमम् सधस्तुती इन्द्राग्निगतम् नरा इमायुजे सान्द्राजायभिर्हव्यान्योहसुः इन्द्राग्नि आगतम् वरा इमाङ्ग्राजत्रवर्तनीम् जुषे साहम् षष्ठतिम् मम इन्द्राग्नि आगतम् वरातर्यावाभिरागतम् देवेभिर्जेन्यावसु इन्द्राग्नि सोमा पीतये वा स्वस्य सम्पो त्रीणाम् शृणुसम्भवम् इन्द्राग्नेसोमापीतये एवामस्वभूतये बाहुमन्त्रमे धीरा इन्द्राग्नेसोमापीतये आहम् सरस्वतीपरोरिन्द्राज्ञोरोणे भ्याङ्गा यत्र मृत्यते अग्निमस्तो श्रुग्निवीला जगध्यैः अग्निर्देवाङ्गानहे हि विलते रविरन्दश्चरधिदूत्या अन्नभन्तामन्ये स मे याग्ने सावकस्तूषु सन्ता यराधीरा विश्वा अर्यो अराधीर्यो यच्छन्वारो नभन्ता मन्यके सा मे अग्नेमन्वानिङ्गम् घृतम् ननुक्व आसनि स देवेन प्रति शशीपूज्य शिवो दूतो विवश्रदो नभन्ता मन्यके सा मे र्मयो दधे यथा यथा कृपण्यति ऊर्जाहुजर्मसूनान्तयोस्तमयो दधे विश्वस्यै देवहोत्यैनमम् तामन्यके समे सेतसही यथाग्निश्चित्रे न कर्मणा ो दा स्रीलां रक्षीरामिदीवृतो देत ओ।